श्रीहरये नमः अथ द्वाविंशोऽध्यायः श्रीशुक उवाच हेमन्ते प्रथमे मासे नन्दव्रजकुमारिकाः चेरुर्घविष्यं भुञ्जाना कात्यायन्त्यर्चनव्रतम् आप्लुत्याम्बसि जलान्ते चोदिते कृत्वा प्रकृतिं देवीम् आनर्चुर्नृपसैकीं गन्तैर्माल्यैषुरभिर्बलिभिर्धूपदी दीपकैः उच्चावचैश्चोपकारैः प्रवाळः पलतण्डुलैः कात्यायिनी महामाये महायोगिन्यधीश्वरे नन्दगोपसुतं देवे कुरुते नमः इति मन्त्रं जपस्त्यस्ता पूजां चक्रुकुमारिकाः एवं मा संव्रतं चेरः कुमार्यः कृष्णचेतसः भद्रकाळीं समानर्चुर्भूयानन्दसुतः पतिः उषसी उत्थाय गोत्रैस्वै अन्योन्या भक्तभाघवः कृष्णमुच्चै जगोर्यान्तःकाळिन्द्यां स्नातुमन्वहम् नद्यां कदाचिदागत्य तीरे निक्षिप्य पूर्वभद् वासांसि कृष्णं गायन्त्यो विजः कृत्सलिले कृष्णो योगेश्वरेश्वरः वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये तासां वासां, वासां शिवोपादाय नीपामारुह्य कसत्भिप्रहसन् बाले परिहासमुवाचः अत्रागत्या भला कामं स्वं स्वं वासप्रगृह्यथा सत्यं भ्रमाणिनो नर्म यत्योऽयं व्रतकर्षिताः न मयोदितपूर्वं वा अनृतं तधिमे विदुः एकैकशप्रतीचत्वं तस्य तत्क्ष्वेलितं दृष्ट्वा गोप्यप्रेमपरिप्लुताः व्रीडिता प्रेक्षसान् योन्यं जातः सा न निर्ययुः एवं ब्रुवति गोविन्ते नर्मणा क्षिप्तचेतसः आकण्ठमग्नासीतो देवेपमानास्तमब्रुवन् मानयम्भो कृतास्त्वां तु प्रियम् जानीमोऽगव्रचक्लाघ्यं देही वासां शिवेपिताः श्यामसुन्दरते दास्यकरवाम तवोदितं देही वासांसि धर्मज्ञे नो चेत्राज्ञे भ्रुवामहे श्रीभगवानुवाच भवत्यो यदि मेधास्त्योमयोक्तं वा करिष्यत अत्रागत्य स्व प्रतिष्ठन्तु शुचिस्मिताः ततो जलाशयात्सर्वाधारिकासीत वेपिताः पाणिभ्यां योनिमाश्चाद्य प्रोत्तेरुशीतकर्षिताः भगवाना कथा वीक्ष्य शुद्धभावप्रसादितः स्कन्धे निताय वासंश्ये प्रेतः प्रोवाच सुस्मितं यूयं विवस्त्राय तपोधृतव्रता व्यगाहतैतत्तु देवहेलनं बध्वाञ्जलिं मूर्तन्यपनुत्तये कृत्वा नमोतो वचनं प्रगृह्यता इत्यश्च्युतेनाभिहिता व्रजाबला मत्वा विवस्त्राप्लवनं प्रतश्च्युतिं तत्पूर्तिकामास्ततसेक्षकर्मणा साक्षात्कृतं नेमुरवध्यमृग्यतः तास्तदावनता दृष्ट्वा भगवान् देवकी सुतः वासां दृढं प्रलब्धास्त्रपया चघापिताः प्रस् प्रस्तोपिता क्रीडनवच्चकारिताः वस्त्राणि चैवाभकृतान्यथाभ्यभुं तानाभ्यसूयन्प्रियसङ्गनिर्वृताः परिधाय स्ववासांसिप्रेष्ठै सङ्गमसज्जिताः गृहीतचित्ता चेलोस्तस्मेन चेलोस्तस्मिन् लज्जायिते क्षणाः तासां विज्ञाय भगवान् स्वपातस्पर्शकाम्यया त्रिधव्रतानां सङ्कल्पमागधामो धलाः सङ्कल्पो विदितः सद्भ्यो भवती नाम दर्शनं सद्यो भवितुमर्हति न मय्या वेसिधति यां कामः कल्पते भर्जिता क्वचिता धाना प्रायो बीजाय याधा बला व्रजं सिद्धा मये मा रंस्यतक्षपाहा यदुस्ति यदुस्थिष्यव्रतमितं चेरोरार्यार्चनं सती हिं श्रीशुक उवाच इत्यादिष्टा भगवता लब्धकामा कुमारिकाः द्यात्यन्त्यस्तत्पदाम्भोजं कृश्रान्निर्विविशुर्व्रजम् अथ गो वै परिवृतो भगवान् देवकीसुतः बृन्दावनाद्गतो दूरं चारयन् गाह स गाग्रजः निदागार्का तपे आतपत्रायितान् वीक्ष द्रुमानाकव्रजौ कसख हे स्तोक कृष्णके हंसो श्रीधामन् सुबलार्जुन विला विशालर्षभतेजस्मिन् देवप्रस्तवरुतपश्यतैतान्महाभागान् परार्तैकान्तजीवितान् वतावर्षातपहिमान् सहन्तो वारयन्ति नः अहो येषां वरं जन्म सर्वप्राण्युपजीवनं सर्वप्राण्युपजीवनं सुजनस्येव येषां वै विमुखा यान्ति नार्तिनः पत्रपुष्पबलच्छायामूलवल्कलधारुभिहे गन्धनिर्यासभस्मास्ते तोग्मै कामान् ये तब्जन्म शल्यम देखिनाम कधेयिश प्राणैरचा शेय्वाचरे सदा प्रबास्तभग फलपुष्पदुष्पदोत्कूं नम्र सा मध्य नमुना ग्र गाय पृष्टा शीतला शिवाः गोपा, नृपः स्वयं गोप कामं स्वाधुपपुर्जलं तस्या उपवने कामं चारयन्त्यपशुनृप कृष्णरामावुपाघं य क्षुधार्तायितमब्रुवन् इति श्रीमद्भगवते मुखापुराणे दशमस्कन्धे पूर्वार्धे गोपीवस्त्राभहरो नाम द्वाविंशोऽध्यायः श्रीखरके नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्दगोविन्द सद्गुरोनाथमहराजके जय